श्रीमत्पयोनिधिनिकेतनचक्रपाणे भोगीन्द्रभोगमणिरञ्जित पुण्यमूर्ते योगीशशाश्वतशरण्यभवाब्धिपोत लक्ष्मीन्द्रिसिंह मम देहि करावलम्बं ब्रह्मेन्द्ररुद्रमरुदर्क किरीटकोटिसङ्घट्टिताङ्घ्रिकमलामलकान्तिकान्त लक्ष्मीलसत्कुचसरोरुहराजहंस लक्ष्मीन्द्रसिंह मम देहि करावलम्बं संसारघोरगहने चरतो मारोग्रभीकरकरप्रचुरार्दितस्य आर्तस्य मत्सरनिदाघनिपीडितस्य लक्ष्मीन्द्रसिंह संसारकूपमतिघोरमगाधमूलं सम्प्राप्य दुःखशतसर्पसमाकुलस्य दीनस्य देवकृपया परमागतस्य लक्ष्मी संसारसागरविशालकरालकालनक्रग्रहग्रसननिग्रहविग्रहस्य व्यग्रस्य रागरसनोर्मिनिपीडितस्य लक्ष्मीन्द्रसिंह मम देहि करावलम्बं संसारवृक्षमघबीजमनन्तकर्मशाखाशतं करणपत्रमनङ्गपुष्पम् आरुह्य दुःखकलितं पततो दयालो लक्ष्मीदृसिंह मम देहि करावलम्बं संसारसर्पघनवक्त्रभयोग्रतीव्रदंष्टाकरालविषदग्धविनष्टमूर्तेः नागारिवाहनसुधाब्धिनिवासशौरे लक्ष्मीदृसिंह मम देहि करावलम्बम् संसारदावदहनाकर भीकरोरुज्ज्वालावलीभिरतिदग्धतनूरुहस्य भी त्वत्पादपद्मसरसीरुहमागतस्य लक्ष्मीन्द्रिसिंह मम देहि करावलम्बं संसारजालपतितस्य जगन्निवास सर्वेन्द्रियार्थबडिशाग्रजशोपमस्य प्रोत्कम्पितः प्रचुरतालुकमस्तकस्य संसारभीकरकरीन्द्रकराभिघातनिष्पीड्यमानवपुषः स कलार्तिनाश प्राणप्रयाण भवभीतिसमाकुलस्य न्धकारकुहरे विनिपातितस्य लक्ष्मीन्द्रसिंह मम देहि करावलम्बं लक्ष्मीपते कमलनाभसुरेशविष्णो यज्ञेश यज्ञमधुसूदनविश्वरूप ब्रह्मण्यकेशव जनार्दन वासुदेव लक्ष्मीन्दृसिंह मम देहि करावलम्बम् हंसात्मकं परमहंसविहारलीलं नित्यं पठे दिहतु सर्वगुणप्रपन्नं लक्ष्मीन्द्रसिंहचरणाब्जमधुव्रतेन स्तोत्रं कृतं शुभकरं भुविशङ्करेण स्तोत्रं कृतं शुभकरं भुविशङ्करेण स्तोत्रं कृतं शुभकरं भुविशङ्करेण